लोकोऽधि स्वर्गो हि अनन्तोऽस्य बालोजि अक्षितोस्य क्षय्योसि तपथप्रतिष्ठा प्रयीतमन्तः विश्वयक्षम् विश्वम्भूतम् विश्वगुन्दभूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्तोपधेका मधुखमक्षितम् प्रजापजस्वासादयतो प्रजा देवदयाङ्गिरस्पध्रुवासीना तेजसप्रतिष्ठा त्वयेनमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वगुंसभूतम् विश्वस्य भद्र विश्वस्य जनेत्रे तत्तोपदधे कामटुसमक्षितम् प्रजापचस्वासादयतो प्रजाजयमदयाङ्ग्रुवाधीजा तेजोजतवचितम् समुद्रस्य प्रतिष्ठा त्वजेनमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वगुंसभूतम् विश्वस्य भक्तविश्वस्वजनयि तत्तोपदधे कामधुखमक्षितम् प्रजापतिस्वासादयतो प्रजापदयाङ्गलस्वध्रुवाधीना समुद्रोजयश्रुतः अपामृष्ठा प्रतमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वकुन्दुभूतम् विश्वस्य भक्ता विश्वस्य जनयिता परन्तोपधेकामधुकमक्षितम् प्रजापतिस्त्वासादयतु ेवदयाङ्गिरस्मद्भ्रुवाधीना आपस्थमुद्रे श्रिताः पृथिव्याप्रतिष्ठा युष्मासो विदमन्तः विश्वै यक्षम् विश्वम् भूतम् विश्वगुण्डभूतम् विश्वस्य भक्त्यो विश्वसृजनयत्र्यः तावधे कामनुक्षिताः प्रजापयस्वासाधयतो प्रजादेवदयाङ्गिरस्मद्भ्रुवाधीना पृथिव्यः सप्तश्रिता अग्नेः प्रतिष्ठा प्रयेतवन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुम् च भवतम् विश्वस्य भक्ते विश्वस्तुयते तान्तोपदे गामधुघामक्षिताम् प्रजापजस्वासादयतो प्रजादेपदजाङ्गध्रुवाधीत अग्निरजपृथिव्यायश्रितः अन्तरिक्षस्य प्रतिष्ठा प्रयेतवन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वस्य भर्त्रा विश्वस्य अन्तोपदधेकामुदुखमक्षितम् प्रजापजस्पादानयतो प्रजा देवतया गिरस्मध्रुपाधीया अन्तक्षमस्यग्नौ श्रितम् वायोः प्रतिष्ठा क एतमन्तः विश्वै यक्षम् विश्वम् भूतम् विश्वगुङ्भूतम् विश्वस्य या देवतयाङ्गिरस्मध्रुपाधीन वायुरस्यन्तरिक्षणे श्रितः दिवप्रतिष्ठा पतीतमन्तः विश्वै यक्षम् विश्वम्भूतम् विश्वगन्तुभूतम् विश्वस्य भक्ता विश्वस्य गणयिता अन्त्वापेतामदुखमक्षिणम् प्रजापतिष्पासादयतु रया देवतयाङ्गिरस्मध्रुपाधीन यौरति वायौ श्रिता आदित्यस्य प्रतिष्ठा न्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य भर्त्री विश्वस्य जलयित्रीपदयकामनुकामक्षिदा प्रजापतिस्तादयतो प्रजाध्रुवादे आदित्योतिविश्रितः छन्दपदत्वतिष्ठा व्येदमन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य अन्तोपतिधेका मधुकमक्षिरम् रजापतिस्वासादयतया देवदयाङ्गध्रुपादेन चन्द्रमा स्यादित्ये श्रितः नक्षत्राणाम् प्रतिष्ठा पदीनमन्तः विश्वै यक्षम् विश्वम्भूतम् विश्वकुन्तभूतम् विश्वस्य भक्ताः विश्वस्य जनयिताः अन्तोपतिधेका मधुकमक्षिरम् रजापनिस्वासादयतो तया देवतया इङ्गिरश्वध्रुवाधीना नक्षत्राणि चन्द्रमधिश्रितानि संवत्सरस्य प्रतिष्ठा युष्मासो विदमन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य भर्त्रीणि विश्वस्य जनयितेणि कानि बहुपदेका मधुकान्यक्षितानि प्रजापनिष्पादे ष्ठा पदीतमन्तः विश्वम् यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य भक्ता विश्वस्य अन्तोपतदेकामधुभक्षितम् प्रजापतिस्पादादेतो अजादेपदयाङ्ग्रुवाधीतावस्थदम्वत्सरे श्रिताः मातानाम् प्रतिष्ठा यस्मादो हितमन्तः विश्वञ्जक्षम् विश्वम् भवतम् विश्वगुम्दुभूतम् विश्वस्य भक्तारो विश्वस्य जनयतारः तान् बहुपदथेकामनुगानक्षितान् प्रजापतिस्पा दे तया देवदयाङ्गध्रुवासीत मासादशताः अर्धमासानाम् प्रदक्षायष्पादो हिमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वकुंसभूतम् विश्वस्य भक्तारो विश्वस्य जनयतारः तानव उपदधेका मधुखानक्षिता प्रजापतिस्वासादेतो प्रजा देवदयाङ्गयस्मद्भृपाधीनाशास्थमादिश्रुताः अहोरात्रयोप्रतिष्ठायुष्मासु विदमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वगुङ्कुभूतम् विश्वस्य भर्तारो विश्वस्य जनयितारः तानव उपदधेका मधुखानक्षिता प्रजापतिस्वासादेतो तया देवतयासीता महोरात्रे स्थोर्थमासे दृश्यते भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे विवयो ऋतमन्तः विश्वैयक्षम् विश्वम् भूतम् विश्वगुम् तुभूतम् विश्वस्य पत्यौ विश्वस्य लीजौमुपदिधेका मधुखे अक्षिके प्रजापतिस्वाधारेतो गजादेवदयाङ्गिरस्पदध्रुवासेनष्टकामावास्यास्था नदुभो विश्वासो विदमन्तः विश्वे यक्षम् विश्वम् भवतम् विश्वगुम् तुभूतम् विश्वस्य भक्त्यो विश्वस्य नैत्र्यः ता न उपनुधेकामधुभाक्षिणाः गजापजस्वाजादेतो गजादेवदयाङ्गिरस्पध्रुवादेन राणचतुर्हते श्रीरथेन्द्रपत्नी धर्मपत्नी विश्वम् भूतमनुप्रभूता प्रचीतवन्तः विश्वै यक्षम् विश्वम् भूतम् विश्वकुंसुभूतम् विश्वस्य भद्री विश्वस्य जनयित्रीपदयकामधुकामक्षिता प्रजापतिष्पादादेनो प्रजा देवतया प्रजा गिरस्पद्भ्रुवाधीता ओजोधिजहोजि वरमदिभ्राजोजि देवानान्धा मामृतम् ममत्यस्त्वकोजाः त्वरीतमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगुंसुभूतम् विश्वस्य भक्ता विश्वस्वियिता त्वन्द्वोपनिधेकामदुःखभक्षितम् प्रजापतिस्वासारयतो विकारे मदुनाङ्गिरस्पद्रुपादीत स्वमग्ने रुद्रो असुरो महो दिवः अरुंशधो मारुतम् वृक्षगीषिषे संवातेरणेर्याजशङ्कजः कुम्बवशाभिधः पात्मना देवादेवेणु श्रेध्वम् प्रथमाद्वितीयेणु श्रयध्वम् द्वितीया तृतीयेणुश्रयध्वम् तृतीया चतुर्थेणुश्रयध्वम् चतुर्थाः पञ्चमेणुश्रयध्वम् पञ्चमा षष्ठेदुश्रयध्वम् षष्ठाः सप्तमेषुश्रयध्वम् सप्तमा अष्टमेणुश्रयध्वम् अष्टमा नवमेणुश्रयध्वम् नवमानुसवेडुश्रयध्वम् दशमादेकादशेषु श्रयद्भम् एकादशा द्वादशेषु श्रयध्वम् द्वादशास्त्रयोदशेणुश्रयध्वम् त्रयोदश चतुर्दशेणुश्रयद्भम् चतुर्दशः पञ्चदशेण श्रयद्वम् पञ्चदश षोडशेण श्रयद्भम् षोडशः सप्तदशेणुश्रयद्भम् सप्तदश अष्टादशेणुश्रयद्भम् अष्टादश एकान्न विपुंशेणुश्रयद्भम् एतान्न विपुंसा विपुंसेन श्रयध्वम् विपुंसा एकविपुंसेण श्रयध्वम् एकविपुंसा द्वा विपुंसेन श्रेयध्वम् द्वाविपुंसा विपुंसेण श्रयध्वम् त्रिणा विपुंसाः चतुर्विपुंसेषु श्रयध्वम् चतुर्विपुंसाः पञ्चविपुंसेभ्रयध्वम् पञ्चविपुंसा षड् विपुंसेभ श्रयध्वम् षड्विपुंसाः सप्त विपुंसेण श्रयध्वम् सप्त विपुंसः अष्टाविपुंसेषु श्रयध्वम् अष्टाविपुंशायेकान्न त्रिपुंसेडश्रेयध्वम् एकान्न त्रिपुंशास्त्रिपुंसेण श्रयध्वम् त्रिपुंशादेकत्रिपुंसेण श्रेयध्वम् एकत्रिपुंशाद्वात्रिपुंसेण श्रेयध्वम् द्वात्रिपुंशास्त्रयस्त्रिपुंसेडुश्रेयध्वम् देवास्त्रिवेकादशास्तिस्त्रयस्त्रिपुंशाः उत्तरे भवता उत्तरवत्त्वानमुत्तनसत्त्वानः यत्कामगिजम् जहोमि तन्मयसमभ्यता वयज्ञस्यामुपगचारेण भोद्भवस्वस्वाहा अज्ञाविष्णो रजोषसा विमावर्थन्तु वाविरः निर्णयविमानेऽभिरागतम् राज्ञे विराज्ञे सम्राज्ञे स्वराज्ञे अर्जशोजेः तपोहरोभाः अग्निस्वमा बृहस्पतिः विश्वे देवाभूरणस्य गोपाः ते सर्वे सङ्गत्या इदम् मेऽप्रावतावजः भो प्रयज्ञस्यामपदलोरणीनाम् भोर्पस्वस्वाहा अन्नपदे अन्नस्य नो देहि अनमेवस्य शुष्पिणः प्रदातारन्तारिणः भोर्जन्नोदे द्विपदेष्पदे अग्ने पथिवीपदे सोमवीर्धाम्पदे स्पष्टः समिधाम् पदे विष्टवाषाणाम् पदे मित्रसत्यानाम् पदे वरुणधर्मणाम् पदे वरदागणानाम् पदयः रुद्रपशूनाम् पदे इन्द्रौजसाम् पदे बृहस्पदे ब्रह्मणस्पदे आरुचारोचे अग्रस्वयम् तस्मैनौ प्रधनौ प्रजायेन वयज्ञस्य मम भोर्भवस्प स्वाहा सप्तदे अग्ने समिदः सप्तजित्वाः सप्तऋषयः सप्तधामप्रियाणि सप्तहोत्रा अनुविद्वान् सप्तयो नीरापुणस्वाघृतेन प्राचीति अग्निर्देवताः अग्निशंस दिशान् देवम् देवता, देवता नामृच्छत् व्योमेकस्मि दिशोऽभिदासने दक्षिणादिक इन्द्रो देवताः इन्द्रकंसदिशाम् देवम् देवतानामृच्छत व्योमेकस्मै दिशोऽभिदासने प्रदे चेदिक सोमो देवताः सोमकंसदिशाम् देवम् देवतानामृच्छतो व्योमेकस्मे दिशोऽभिदासने उदे चेदिक मित्रावरुणो देवताः निद्रावर्णौ सदिशाम् देवौ देवतानामृच्छत नोमेतस्ये दिशाभिनाशिने ऊर्ध्वादिगे बृहस्पतिर्देवताः बृहस्पतिपुंसविषाम् देवम् देवता नामृच्छत नोमेतस्य दिशोऽभिनाशिने इयन्दिगे अनितिर्देवताः अनिजपुंसविषाम् देवीम् देवता नामृच्छत नोमेतस्ये दिशोऽभिनाशिने पुरुषोदिगे पुरुषोमेकामान् समर्थयतु अन्धोजाग्रविष्पान असावेः बधिराः कम्बैतरपान असावेः उषसमुषसवशीया अहमसोज्योतिरशीया अहमसोपोषीय वयज्ञस्यामपरिवारीणाम् भोद्भवस्वस्वाः यत्तेचिदञ्जन्ते अग्ने यत्तभोनञ्च नियतिरिक्तम् आदित्यास्तरङ्गिरतश्चिन्वन्तो विश्वेते देवाश्च दिवापूरयन्तु चिरश्चा धिरश्चास्यग्ने एता वागश्चा दभूयागश्चास्यग्ने लोकम् प्रणच्छिद्रम् प्रण अथोऽधीनशिवात्मन् इन्द्राग्ने गृहस्पतिः अस्मिन् योनापशेषदन् प्रजा देवनजाङ्गिरस्पद्रुवाधीन आस्य चोदलोहदः सोमग्निश्रेणन्त्यपृष्णयः जन्मन् देवानाम् विशः पृष्ठने दिवः देवतया गिरस्मद्ध्रुवासीत अर्गे देवागुम् विहावः जज्ञानो वृत्तवहिरे अधिहोतानिज्ञः अजर्ममहामनदायमिष्ठम् यो गीतागतमिद्धस्मेदुलोणे श्रिप्रभाे स्वाहुतम् विश्वतः प्रत्यन्तम् मेधाकारम् वितनस्य प्रसाधनम् अग्निगम् होतारम् परिभूतमम् मतिम् त्वामर्भस्य हविषः समानमिद त्वाम् महोविणतेन लोनान्यम् त्वत् मनुष्वत्पानि धीमहि मनुष्वत्समिधीमहि अग्ने मनुष्पदङ्गिरः देवाङ्गेवायते अग्निवाजिनम् विषय रदाजविश्वदरिषणेः अग्निराजे स्वाभुवम् स प्रीतोजादिवालियम्भराभर पृष्ठो दिविपृष्ठोऽग्निः पृथिव्याम् पृष्ठो विश्वावोटुधेरावेश हैष्मानः सहदा पृष्ठो अग्निः सरोदिव सिडप्पादुनक्तम् अयम् वा वयः पवदे सोऽकेतः सरिप्रान् पवदे पदः शिरः अथ यद्दक्षिणः स दक्षिणः तत्पुच्छम् यदुगन्ये स उत्तरः पक्षः अजयत्संवादे रजसमञ्जलम् च प्रसारणम् च अथोगम्पदेवास्य सम्भवा अस्मै साम यत्कामो विद्यते योऽन्यनाजिकेतम् च नुजे यौ जैनमेवम् गच्छतिर्पतिष्ठा हिरण्यम् वा अग्नेर्नाजिकेतस्यायुधनम् प्रतिष्ठा ह्येवम् वेद आयुगतवान् भवति गच्छतिर्पतिष्ठा दोहवा अग्नेर्नाजिघेतस्य शरीरम् वेद स शरीर एव स्वर्गम् लोकमेदे अथो यथा रूपमुत्पत्तो भाह्यात् एवमेव स नेज लोके सुष्मङ्किश्च भाति पुरवो हवीनामैते लोकाः एवदित्यम् अथ हैते मलीयागम् सो लोकाः एवदित्यम् अनन्तमन्दगम् हवानेष क्षय्यम् लोकम् जयति यो वरेणादित्यम् अथ हैषोऽनन्दमपारमक्षय्यम् लोकम् जयति यः परेणादित्यम् अनन्तगम्भवा पारमक्षय्यम् लोकम् चेति योऽज्ञन्नाचिकेतम् च नुते यौ जैनमेवम् वेद अथो यथा रचेतिष्ठन्पक्षजीपरिया वर्तमाने प्रत्यपेक्षते दे। एवमहोरात्रे प्रत्यपेक्षते नास्याहोरात्रे लोकमाहात्मनः योऽज्ञाचिकेतम् चिनुते सर्ववेदसन्दतौ तस्य हनुचिकेता नाम पुत्राम्हगुमारविसन्तम् दक्षिणादिनीयमानादिश्रद्धादिवेश स हो वाचा तथ कस्मै मान्दापरीतौ वाचा ददामीति स्मोत्सिदम् वागभिवदति गौतमकुमारमि सहो मृत्योद्गृहान् मृत्यवेवयित्वा धामिनि प्रवसन्तम् कन्तादेहो तस्य स्म निस्तो गृहेऽवसदान् श्रेण पृच्छेन् कुमारकथिरार्त्रेरवात्सेरि विस्मै प्रतिब्रूदान् किम् प्रथमागौरात्रिमाश्नागिने मृदान्तैरे किम् यामि अशोकस्तैरे साधुकृत्यान्तयरे तम् प्रभन्तम् जगामा तस्य कविसोरात्रेरणाना स्वाङ्गृहारमागर्तमप्रच्छ कुमारगतिरात्रे न वाद्यवाच किम्प्रथमागौरात्रिमाश्नायिने यिनि किन्मिनि असोगस्तयि किम् कृतीमिनि साधुकृत्या नमस्तेऽस्तु भगवीहोवाच परम् वृणेश्वेति वितरमेव जीवण्डयानेति वृणेश्वेति इष्टापूर्तयोम् रोहेजहोवाच तस्मै हैतमज्ञम्नायगेतमुवाच ततोपूर्तेनाक्षीयेते स्ये क्षीयते योग्निकेतञ्चिनुते युजयनमेवम् वेद श्रीनम् अग्निनाचिकेतौवाल ततो वेदोपल्यवेन योऽकेतन्त्यनुते युजैनमेवम् वेद च्छदेन तद्वितीयम् प्रास्यैवाच्छदेन तद्वितीयम् प्रास्यैवाच्छदेन तदात्मन्ये महदयश्वानरे प्रास्य तस्माद्धरण्यकनिष्ठनाम् भुञ्जत्प्रयतमम् यस्मैताम् दक्षिणामले एष्य आकस्मायैव हस्ताय दक्षिणायामेत्यगृह्णात् रक्षायत्वादक्षिणाम् प्रतिगृह्णामेतिलक्षिणाम् हवेदक्षिणागृह्य हरे एतद्धत्वमेतद्विद्वागन्धो वाजस्रवदा गोतमाः अप्यलो ते स्यान्तलक्षिणाम् प्रतिगृह्णन्ति <reiktın> उभयेन भयम् दक्ष्यामः एव दक्ष्याम् प्रतिगृह्येति तेन दक्षिणाम् प्रतिगत्य लक्षणे हविदक्षिणाम् प्रतिगत्य एवम् वेद कान्यम् वीनादि तयो हैतमेके पशुबन्धकेवोत्तरवेद्यान् चिन्वदे उत्तरवेदिसंविदेषोन्दः अनन्द्र कुल्यात् एतमज्ञम् कामेण व्यर्थयेत् श्रयेण कामेण व्यर्थः कामेण व्यर्थयेत् सौम्ये वामेण मद्भरे चिह्नेतरा भूयिष्ठा आहुदयो हूवेरन् एतमग््यम् कामेन समर्थयति श्रयेन कामेन समर्थः कामेन समर्थयति अथ वैणम् पुनर्षिणः उत्तरवेद्यामेव सत्रयजिन्वद ततो वैदेवेन्द्रन्तप्रजाम् अभिस्वर्गम् लोकमजयन् इन्दन एव प्रजाम् अभिस्वर्गम् लोकम् जयति योग्यन्नाचेदम् एवम् वेद अथम् मागदर्थ्यकामः यथा निवापदोऽध्यमार्जा यामिदम् वागिद्धः एतावृद्धिमर्थोदि यामिदम् वागिद्धःनादिघेदम् च नृते युजैनमेवम् वेद अथैरङ्गोपलो बाष्णः पशुकामः आङ्गमेव यज्ञे पञ्चपुरस्तात् पञ्चलक्षिणदः पञ्चपश्चात् पञ्चोत्तरतः एकाम् मध्ये ततो वैषसहस्रम् पशोऽन् प्राप्नोत् म् पशूना आप्नोति योग्यन्नाचिकेदञ्जे योजैनमेवम् वेद अध्ययनम् प्रजापतिर्ज्येष्ठकामोचिस्कामप्रजननकामः नित्ये सप्त पुरस्कान् ऋस्रोदक्षिणदः सप्तपश्चात् त्रिस्वत्तरतः एकाम् मध्ये ततो वेदप्रयसो ज्येष्ठमाप्नोन् एताम् प्रजातिम् प्राजायत यामिदम् प्रजा प्रजायन्ते प्रभृद्वै ज्येष्ठ्यम् माता पिता पुत्रः प्रवत्प्रजानम् उपस्थो योजन्मध्यमा प्रयतो ज्येष्ठ्यमाप्नोति एताम् प्रजायणे यामिदम् प्रजा प्रजायन्ते योर्निन्द्राजकेतञ्चलते योजेन वयम् वेद अथमिन्द्रो ज्येष्ठ्यकामः ओर्ध्व अतो वेदज्येष्ठमगच्छत् ज्येष्ठम् गच्छति योज्ञन्नादिकेदम् च मते योजैनमेवम् वेद अथेन स्वर्गगावः अथ वेनापि स्वर्गम् लोकमजयत् अभिस्वर्गम् लोकम् जयति योज्ञन्नादिकेदम् जते योजैनमेवम् वेद प्रयदेशेत् तेजस्वी यशस्वी ब्रह्मवर्तजे स्यामिने प्रानाहो दुर्धिष्ट्यात्सर्पे हेयम् प्रास्वती साहाप्रोन्नो तेजसा यशसा ब्रह्मवर्तजे तेजस्वेस्वे ब्रह्मवर्तजे भवते भूयिष्ठम् मे शब्दीरन्य भूयिष्ठा दक्षिणानये दक्षिणानुलीयमानासुप्राच्यै प्राच्ये हेदिप्रादेजुधानावेस्य स्वाहेजि श्रुवेणो भवत्याहवणीयजुयास्मै श्रद्धे भोजिष्ठा दक्षिणानगन्ते पुरेशमुपधाय श्रीकृतस्य अग्निम् प्रणेय मुखमासाय तेर्जहोदेयस्य रूपम् अग्नाविष्णोर्धारायाः अन्नपद इत्यन्नहोमः अग्ने सप्तविष्वायुविश्व प्रथमाविष्टकानि इमतया लोकमभिजगे अथो या अस्कल्लोके देवताः तासान्दायुज्यलोकयामुनि अन्धारिक्षलोकयाभिषये अथोयान्तरिक्षलोके देवदाः राम् जायुजगन्तलोकलामाप्नोदि अमुन्तया लोकमभिलगे अथोया लक्ष्मोके देवदाः रागम् जायुजगुन्तलोकलामाप्नोदि अथोयामोर्ग अष्टादशास्सबलीयागुण्डस्य लोकाः सा देवताभिरभिरिगे कामचारो भवस्त्रवरुषेशेषु भवे योनादिवेदम् योगेन नैवम् वेद संवत्सरो वा अज्ञनादिवेदः तस्य वन्दशिरः हे यत्मादक्षिणः पक्षः वरुषा उत्तरः शरत्कृच्छम् मादाः कर्मकाराः अहोरात्रेषुयम् पर्जन्यावतोर्धाराः तथा वै वर्जन्यः सुपृष्टम् मृष्ट्वा यदाभ्यः सर्वान् कामान् सम्पूरयति एवमेव सर्वान् कामान् सम्पूरयति योज्ञन्नाचिकेन चिनुते योजेन एवम् वेन संवत्सरो वाज्ञन्नाचिकेदः तस्य वृन्दशिरः येष्मोदक्षिणः पक्षः पुच्छम् सर्वत्र पक्षः हेमन्तोमध्यम् अग्यमयो अग्यमयो ओ प्रपक्षाश्चनयः अपप्रपक्षात् पुरेदम् अहोरात्राणेष्टकाः एदमापसोभाग्यरग्निमयः पुलम् नवः अग्निमयो है पुलम् नव भूत्वा स्वर्गम् नवगमेदि आदित्यस्य सायुज्यम् यो